कृष्णयजुर्वेदे क्रमपाठे षष्ठकाण्डे पञ्चमः प्रश्नः प्रारम्भः वृत्राय वृत्राय वज्रम् वज्रमुद् अदेच्छद् अदेशत्सः स वृतः वृत्रो वज्राद् वज्रादुद्यतात् उद्यतादभिभेद् उद्यतात् अब्रवीन्मा मामे मे प्राहाराहारस्ति अस्ति वै वा इदम् इदं मयि मयि वीर्यम् वीर्यम् तत् तत् ते प्रदास्यामि दास्यामीति इति तस्मै तस्मायच्छत् अयच्छत् तस्मै तस्मै द्वितीयम् द्वितीयमुत् अयच्छत् अयच्छत् सः सोऽ ब्रवीत् ब्रवीन्मा मामेप्रहाहारस्ति अस्ति वै वा इदम् इदम् मयि अयि वीर्यं वीर्यं तत् तत्ते प्रदास्यामि दास्यामीति इति तस्मै तस्मा उथ्यम् उथ्यमेव एव प्र प्रायच्छद् अयच्छत्तस्मै तस्मै तृतीयं तृतीयमुत् उदयच्छद् अयच्छत्तं तं, तं विष्णुः विष्णु अन्वतिष्ठत अतिष्ठत जहि जहीति इति सह सोऽब्रवीत् अब्रवीन्मा मामे नेत्र प्रहास्ति अस्ति वै इदम् इदम् मयि मयि वीर्यम् वीर्यम् तत् कृतेः ते प्रदास्यामि दास्यामीति इति तस्मै तस्मा उक्थ्यम् उक्थ्यमेव एव प्र प्रायच्छत् अयच्छत्तम् तन्निर्माजम् निर्माजम् भूतम् निर्मायरुचिनिः मायम् भूतमहन् यज्ञः यज्ञो हि इदस्य तस्य माया मायासीत् आसीदिर् यदुक्थ्यः उक्थ्यो दृश्यते दृश्यत इन्द्रियम् इन्द्रियमेव एव तत् तद्वीर्यम् वीर्यम् यजमानः यजमानो भ्रातुर्यस्य भ्रातृर्यस्य वृन्ते वृन्त इन्द्राय इन्द्राय त्वा बृहद्वदे बृहद्वदे वयस्वते बृहद्वत इति बृहदे वृते इति इत्याह आहेन्द्राय इन्द्राय हि हि सह सतम् तम् तस्मै त्वा विष्णवे विष्णवे त्वेति इत्याह आह यदेव एव विष्णुः विष्णुरन्वतिष्ठत अन्वतिष्ठत जिहि अन्वतिष्ठतेष्ठत जहि तस्मात् तस्माद्विष्णुम् भिष्णु। अन्वाभरतिवाभरति त्रिः अन्वाभरतिद्यो आभरति त्रेन्निः निर्गृह्णादि गृह्णादि त्रिः त्रेरिः सह सम्मै तस्मै प्र प्रायच्छत् अयच्छतेषः एषते तेजोनिः योनिः पुनर्हविः पुनर्हविरसि पुनर्हविरति पुनः इत्याह आह पुनः पुनः पुनः पुनर्हि पुनः पुनरिति पुनः ह्यस्मात् अस्मान् निर्गृह्णाति निर्गृह्णाति चक्षुः निर्गृह्णाति यदि निर्गृह्णाति चक्षुर्वै वा एतत् एतद्यज्ञस्य यज्ञस्य यत् यदुक्थ्यः उक्थ्यस्तस्मात् तस्मादुत्ख्यम् उत्थ्यमम् हुतम् हृतकम् सोमाह सोमायन्ति अन्वायन्ति तस्मात् अन्वायन्ति इत्यनुवायन्ति तस्मादात्मा आत्मा चक्षुः चक्षुरुनु अन्वेति एतस्मात् तस्मादेकम् एकम् यन्तम् यन्तम् बहवः बहवो नु तस्मादेकः एको बहूनाम् बहूनाम् भद्रः भद्रो भवति भवति तस्मादेकः एको बह्वीः बह्वीर्जाजाः जाजा विन्दते विन्दते यदि यदि कामयेत कामयेतार्युः ध्वर्युरात्मानम् आत्मानम् यज्ञैशसेन यज्ञैशसेन अर्पयेयम् यज्ञैषसेन यदि यज्ञैशसेन अर्पयेजिति इत्यन्तरा अन्तराहवनीयम् आहवनीयम् च आहवनीयडिद्याहवनीयम् सह विर्धानमिति हविहीधानम् च तिष्ठन् तिष्ठन्नव अवनयेद् नयेदात्मानम् आत्मानमेव एव यज्ञैषसेन यज्ञैषसेना अर्पयति यज्ञैषसेनेति यज्ञायशसेन अर्पयति यदि यदि कामयेत कामयेत यजमानम् यजमानम् यज्ञैषसेन यज्ञैषसेना अर्पयेयम् यज्ञैषसेनेति यज्ञाैषसेन अर्पयेयमिति इत्यन्तरा अन्तरा सदोहविर्धाने सुदोहविर्धाने तिष्ठन् ततो हविर्धाने इति सदः हविर्धाने तिष्ठन् न अवनयेत् महेद्यजमानम् यजमानमेव एव यज्ञैशसेन यज्ञैशसेनार्पयति यज्ञैषसेनेति यज्ञायशसेन अर्पयति यदि यदि कामयेत कामयेत् सदस्यान् सदस्यान् यज्ञैशसेन यज्ञैशसेनार्पयेयम् यज्ञैशसेनेति यज्ञैशसेन इति सदः सदा आलभ्य आलभ्या वा अवनयेत् अनेत्सदस्यान् सदस्यानेव एव यज्ञैशसेन अर्पयति यज्ञैषसेनेति यज्ञैशसेन अर्पयति इत्यर्पयति आयुर्वै वा एतत् एतद्यज्ञस्य यज्ञस्येत् यद्ध्रुवः ध्रुव उत्तमः उत्तमान् ग्रहाणाम् उत्तम इत्युदुत्तमः ग्रहाणाम् गृह्यते लक्ष्यते तस्मात् तस्मादायुः आयुः प्राणानाम् प्राणानामुत्तमम् प्राणानामिति प्राणानाम् उत्तमम् मूर्धानम् उत्तममित्युदत्तमम् मूर्धानम् दिवः दिवो अरतिम् अरतिम् पृथिव्याः पृथिव्या इति इत्याह आहमूर्धानम् मूर्धानमेव एवैनम् एनकम् समानानाम् समानानाम् करोति करोति वैश्वानरम् वैश्वानरवृथाय वृथाय जातम् जातमग्निम् अग्निमिति इत्याह आह वैश्वानरम् वैश्वानरगुं हि हि देवतया देवदयायुः आयुर्भयदो वैश्वानरः उभयतो वैश्वानरो दृष्यते उभयवैश्वानर इत्युभयदः वैश्वानरः दृश्यते तस्मात् तस्माद्भयदः उभयदः प्राणाः प्राणाधस्तात् प्राणादि प्राणाः अधस्ताच्च चोपरिष्टाद् उपरिष्टाच्च चार्थिनः अन्ये ग्रहाः ग्रहा गृह्यन्ते गृह्यन्तेऽर्थी ध्रुवस्तस्मात् तस्मादर्थी तस्माद अर्थ्यवान् अवाङ् प्राणः प्राणोऽन्येषाम् प्राणैषा अनः अन्येषाम् प्राणानाम् प्राणानामुपोक्ते प्राणानामधिप्राणानाम् उपोक्तेऽन्ये उपोक्तयत्युपा उप्ते अन्ये ग्रहाः ग्रहाः साध्यन्ते साध्यन्तेऽनुपोक्ते अनुभोक्ते ध्रुवः अनुभोक्तयत्यनुपा उक्ते ध्रुवस्तस्मात् अन्याः प्रजाः प्रजाः प्रतितिष्ठन्ति प्रजा इति प्राजाः प्रतितिष्ठन्ति माघुंसेन प्रतितिष्ठन्ति इति प्रतितिष्ठन्ति माघुंसेनान्याः अन्यासुराः प्रदिस्थन्ति असुरा वै वा उत्तरतः उत्तरतः पृथिवीम् उत्तरद इत्युदरतः पृथिवीम् पर्याचिकीर्षन् पर्याचिकीर्षन्ताम् पर्याचिगीर्षन्निति परियाचिकीर्षन् ताम् देवाः देवाध्रुवेण ध्रुवेणा दृग्महन् तद्ध्रुवस्य ध्रुवस्य ध्रुवत्वम् ध्रुवत्नै यत् ध्रुवत्वमिति ध्रुवत्वम् यद्ध्रुवः ध्रुव उत्तरतः उत्तरतः साध्यते उत्तरद इत्यदोत्तरतः साध्यते धृत्यै धृत्यायुः आयुर्वै वा एतत् एतद्यज्ञस्य यज्ञस्य यद् यद्ध्रुवः ध्रुव आत्मा आत्मा होताः होतायत् यद्धोदृशमसे होदृशमसे ध्रुवम् होदृशमसे इति होदृशमसे ध्रुवमवने अवनयतीत्यवानयति आत्मन्नेव एव यज्ञस्य यज्ञस्यायुः आयुर्दधादि दधाति पुरस्ताद् पुरस्तादुक्थस्य उक्थस्यावनीजः अवनीय इति अवनीजैत्यवानीयः इत्याहोः आहुः पुरस्ताद् पुरस्ताद्धि श्यायुषः आयुषो भुङ्क्ते भुङ्क्ते मध्यतः मध्यतो वनीयः अवनीय इति अवनीजैत्यवानीयः इत्याहुः आहुर्मध्यमेन मध्यमेन हि श्यायुषः आयुषो भुङ्गत्तरार्धे उत्तरार्धेऽवनीयः उत्तरार्धेत्युत्तरार्धे अवनीयैः अवनीयैत्यवनीयः इत्याहुः आहुत्तमेन उत्तमेन हि उत्तमेनेत्युदोत्तमेन ह्यायुषः आयुषो भुङ्े भुङ्े वै ईश्वदेव्याम् वैश्वदेव्याम् ऋचि वैश्वदेव्यामिति वैश्वदेव्याम् ऋचि शस्यमानायाम् शस्यमानायामव अवनयति नेति वैश्वदेव्यः वैश्वदेव्यो वै वैश्वदेव्यै इति वैश्वादेव्यः ययि प्रजाः प्रजाः प्रजासु प्रजादिति प्राजाः प्रजास्वेव प्रजास्विति प्राजासु एवायुः आयुर्दधाति दधातीति दधाति यज्ञेन वै वयि देवाः देवास्वर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवर्गंलौं, सुभागम् सुवर्गंलौं। लोकमाजन्य आयन्ते तेन अमन्यन्तमनुष्याः मनुष्यानः नोन्वा भविष्यन्ति अन्वा भविष्यन्तीति अन्वा भविष्यन्तीति ते संवत्सरेण संवत्सरेण योपयित्वा संवत्सरेणेति संवत्सरेण योपयित्वा सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुवभागम् लोकमायन् आयन्तम् तमऋषयः ऋषे ऋतुग्रहैः ऋतुग्रहैरेव ऋतुग्रहैरि ऋतुग्रहैः एवानुप्रजानन् रजानन् हित् यत ऋतुग्रहाः ऋतुग्रहा गृह्यन्तेः ऋतुग्रहा स्वर्गस्य लोकस्य स्वर्गस्य इति स्वभागस्य लोकस्य प्रज्ञाति प्रज्ञाति द्वादश प्रज्ञाद्यायति द्वादश गृह्यन्ते गृह्यन्ते द्वादश द्वादशमासाः मासाः संवत्सरः संवत्सरः संवत्सरस्य संवत्सर इति संवत्सरः संवत्सरस्य प्रज्ञाति संवत्सरस्य इति सः प्रज्ञाद्यायति प्राज्ञातिः सः प्रथमो गृह्येते गृह्येते सः गृह्येते इति दृश्येते सहोत्तमौ उत्तमौ तस्मात् उत्तमाविद्युतमौ तस्माद्वौ द्वौ द्वौ द्वावृतौ द्वौ द्वाविदि द्वौ द्वौ ऋतौ उभयतो मुखम् ऋतो विद्रुतौ उभयतोमुखम् ऋतुपात्रम् उभयतोमुखमित्युभयतः मुखम् ऋतुपात्रम् भवति ऋतुपात्रमित्रितो पात्रम् भवतिकः को हि एतत् तद्वेद वेदयतः यत ऋतूनाम् ऋतूनाम् मुखम् मुखमृतूनाः ऋतूना प्रा इति षट् षट् कृत्वः आह षट् षड्वै वा ऋतवः ऋतवऋतून् एव प्रीणाति प्रीणात् ऋतुभिः ऋतुभिरि ऋतुभिरि इति चतुः ऋतुश्चतुष्पदः चतुष्पद एव चतुष्पद इति पदः एव पशून् पशून् प्रीणाति प्रीणातिद्विः विः पुनः पुनर् ऋतुनाः आहद्विपदः द्विपद एव द्विपद इति द्विपदः प्रेष्य इष्येति इति षट् कृत्वा आह आहर्तुभिः ऋतुभिरिति ऋतुभिरृतुभिः इति चतुः चतुष्पादः पशवः चतुष्पाद पादः पशव ऋतून् ऋतूनुप उपजीवन्ति जीवन्ति द्भिः ऋतुनाः आह तस्मात् तस्माद् द्विपादः त्रिपादश्चतुष्पदः त्रिपादैरि द्विपादः चतुष्पदः पशून् चतुष्पदैरिचतुः पदः पशूनुप उपजीवन्ति ऋतुनाः ऋतुनाप्रेष्य इष्येति इति षट् षट्कृत्वः कृत्वा आह आहर्तुभिः ऋतुभिरि ऋतुभिरि इति चतुः चतुर्द्विः द्विः पुनः पुनर्ऋतुनाः ऋतुनाः आहाक्रमणम् आक्रमणमेव आक्रमणमित्या आक्रमणम् एव तत्सेतुम् सेतुं यजमानः यजमानः कुरुते कुरुते सुवर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य यदि सुवभागस्य लोकस्य समष्टि समष्टी न समष्ट्या इति समष्टिः नान्यः अन्योन्यम् अन्यमनु अनुप्रपद्येत प्रपद्येत यत् यदन्यः अन्योन्यम् अन्यमनुप्रपद्येत अनुप्रपद्येतर्तुः अनुप्रपद्येतेत्यनुप्रपद्येत ऋतुर् ऋतुम् ऋतुमनु अनुप्रपद्येत प्रद्येतवः ऋतवो मोहुकाः मोहकाः स्युः स्युः प्रसिद्धम् प्रसिद्धमेव प्रसिद्धमिति प्रासिद्धम् एवध्वर्युः अध्वर्युर्दक्षिणेन दक्षिणेन प्रपद्यते प्रपद्यते प्रसिद्धम् प्रसि प्रसिद्धमिति प्रासिद्धम् प्रतिप्रस्थातोत्तरेण प्रतिप्रस्था उत्तरेण तस्मात् उत्तर इणेद्रितोत्तरेण तस्मादादित्यः आदित्यः षड् षण्मासः मासो दक्षिणेन दक्षिणेन इति एति षड् षडुत्तरेण उत्तरेणोपयामगृहीतः उत्तरेणेद्रितोतरेण उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामागृहीतः अस्य सृणुं सर्पः सृगुं सर्पोऽसि सघुं सर्प इति संसर्पः अस्य गुम्हस्पत्याय अगम्हस्पत्याय त्वा <ईधा> अगम्हस्पत्यायेत्यगुह प्रत्याय त्वेति इत्याह आहास्ति अस्ति त्रयोदशः त्रयोदशो दशः मास इति इत्याहोः तमेव एव तत् प्रीणातीति प्रीणाति स्वर्गाय वै स्वर्गाय इति स्वभागाय वा एते एते लोकाय लोकाय गृह्यन्ते दृश्यन्ते यत् यदृतग्रहाः ऋतुग्रहा ज्योतिः ऋतुग्रहायत्रग्रहाः ज्योतिरिन्द्राज्ञी इन्द्राज्ञी यत् इन्द्राग् इति इन्द्राग् यद्राग्नम् ऋतुपात्रेण अईन्द्राग्नमित्य इन्द्राग्नम् ऋतुपात्रेण गृह्णाति ऋतुपात्रेण ऋतुपात्रेण गृह्णाति ज्योतिः ज्योतिरेव एवास्मैः दधाति सुवर्गस्य स्वर्गस्य लोकस्य स्वर्गस्येति सुभागस्य लोकस्यानुख्याद्य अनुक्षात्या ओजो भृतौ अनुक्षात्या इत्यनुक्षातिः ओजो भृतौ वै ओजोभृतावित्योजः भृतौ वा एतौ एतौ देवानाम् देवानाम् यद् यदिन्द्राग्नी इन्द्राग्नीग्नीति इन्द्राग्नी यदैन्द्राग्नः इन्द्राग्नो दृह्यते इन्द्राग्नि इत्य इन्द्राग्नः दृश्यत ओजः ओज एव देवा वा अवरुन्धे वृन्धे वैश्वदेवम् वैश्वदेवम् शुक्रपात्रेण वैश्वदेवमिति वैश्वदेवम् शुक्रपात्रेण गृह्णादि शुक्रपात्रेण यदि शुक्रापात्रेण गृह्णादि वैश्वदेव्यः वैश्वदेव्यो वै वैश्वदेव्यः वै प्रजाः प्रजा असौ प्रजा इति प्राजाः रसावादित्यः शुक्रः शुक्रो यत् यद्वै वैश्वदेवम् शुक्रपात्रेण वैष्वदेवमिति वैश्वदेवम् शुक्रपात्रेण गृह्णाति शुक्रपात्रेणेति शुक्रपात्रेण गृह्णाति तस्मात् तस्मादसौ रसावादित्यः आदित्यः सर्वाः सर्वाः प्रजाः प्रजाः प्रत्यङ्ग प्रजा इति प्राजाः प्रत्यङ्गत् उदेति एतस्मात् तस्मात् सर्वः सर्व एव मन्यते मन्यते माम् प्रति प्रत्युत् उदगाद् अगादिनि इति वैश्वदेवम् वैश्वदेवम् शुक्रपात्रेण वैश्वदेवमिति वैश्वदेवम् शुक्रपात्रेण शुक्रपात्रेण इति शुक्रपात्रेण गृह्णाति वैश्वदेव्यः वैश्वदेव्यो वै इति वैश्वदेव्यः वै प्रजाः प्रजास्तेजः प्रजादिति प्राजाः तेजः शुक्रः शुक्रो यत् वैश्वदेवम् वैश्वदेवकं शुक्रपात्रेण वैश्वदेवमिति वैश्वदेवम् शुक्रपात्रेण गृह्णाति शुक्रपात्रेणेति शुक्रपात्रेण गृह्णाति प्रजासु प्रजास्वेव प्रजास्विति प्राजासु एव तेजः तेजो दधाति दधातीति दधाति इन्द्रो मरुद्भिः मरुद्भिः सांविद्येन मरुद्भिरिति मरुतोभिः सांविद्येन माध्यन्दिने सांविद्येनेति सांविद्येन सवने सवने वृत्रम् वृत्रमहन् अहनयत् यन्माध्यन्दिने सवने सवने मृत्वदीयाः मृत्वदीया दृश्यन्ते दृश्यन्ते वार्त्रघ्नाः वार्त्रघ्नादेव वार्त्राघ्नादि वार्त्राघ्ना एव ते ते यजमानस्य यजमानस्य दृश्यन्ते सः स ऋतुपात्रेण ऋतुपात्रेण मरुत्वदीयान् ऋतुपात्रेण ऋतोपात्रेण मरुत्वदीयान् गृह्णात् गृह्णात्तदः रतो वै वै सः स ऋतून् ऋतोन् प्राजानाद् ऋतुपात्रेण ऋतुपात्रेण मरुत्वदीयाः ऋतुपात्रेण ऋतोपात्रेण मरुत्वदीया गृह्यन्ते गृह्यन्त ऋतूनाम् ऋतूनाम् प्रज्ञाः प्रज्ञाद्यैवज्रम्भ प्रज्ञाध्यायैप्राज्ञादिः वज्रम् वै वा एतम् एतम् यजमानः प्रहरति हरति यत् यन्मरुत्वदीयाह मरुत्वदीयावत् उदेव एव प्रथमेन प्रथमेन यच्छति यच्छति प्रहरति हरति द्वितीयेन द्वितीयेन स्तृणते स्तृणते तृतीयेन द्वितीयेनायुधम् आयुधम् वै वा एतद्यजमानः यजमानः सन् सद्युस्कुरुते कुरुते यन्मरुद्वतीयाः मरुद्वितीयाधयोः धनुरेव एव प्रथमः प्रथमो ज द्वितीयः द्वितीय इषुः इषुस्तृतीयः तृतीयस्प्रति प्रत्येव प्रथमेन धत्ते धद्देवि विसृजति सृजति द्वितीयेन विजीयेन विध्यति विध्यति तृतीयेन तृतीयेनेन्द्रः इन्द्रो वृत्रम् वृत्रकम् हत्वा हत्वापराहम् पराहम्परावतम् परावतमगच्छत् परावतमिति परावतम् अगच्छदप अपाराधम् अराधमिति इति मन्यमानः मन्यमानः सः स हरितः हरितो भवद् अभवत्सः स एतान् एतान् मरुद्वदीयान् मरुद्वदीयानात्मस्मरणान् आत्मस्मरणानपश्यत् आत्मस्मरणानित्यात्मास्मरणान् अपश्यत्तान् तान् गृह्णीत अगृह्णीतप्राणम् प्राणमेव प्राणमिति प्राणम् एव प्रथमेन प्रथमेनास्मृणत अस्मृणदापानम् अपानम् द्वितीयेन अपानमित्युपानम् द्वितीयेनात्मानम् आत्मानम् द्वितीयेन त्वदीयेनात्मस्मरणाः आत्मस्मरणा वै आत्मस्मरणा इत्यात्मा स्मरणाः वा एते एते यजमानस्य यजमानस्य गृह्यन्ते गृह्यन्ते यन्मरुत्वदीयाः ऋत्वदीयाः प्राणम् प्राणमेव प्राणमिति प्राणम् एव प्रथमेन प्रथमेन स्पृणते स्पृणते वाणम् अपानम् द्वितीयेन अपानविद्यपानम् द्वितीयेनात्मानम् आत्मानम् तृतीयेन तृतीयेन इन्द्रः इन्द्रो वृत्रम् वृत्रमहन् देवाः देवा अब्रुवन् अब्रुवन्महान् महानवि वा अयम् अयमभूद् अभोद्यः यो वृत्रम् अवधीदिति इति तत् महेन्द्रस्य महेन्द्रत्वम् महेन्द्रस्येति महा इन्द्रस्य महेन्द्रत्वकम् सः महेन्द्रत्वमिति महेन्द्रत्वम् स एतम् एतम् माहेन्द्रम् माहेन्द्रमुद्धारम् माहेन्द्रमिति महा इन्द्रम् उद्धारमुत् उद्धारमित्युदहारम् उदाहरत आहरदवृत्तम् वृत्रकम् हत्वा हत्वान्यासु अन्यासु देवतासु देवतास्वधि अधियत् इन्माहेन्द्रः माहेन्द्रो दृश्यतेः माहेन्द्र इति माहान्द्रः कृश्यत उद्धारम् उद्धारमेव उद्धारमित्युदाहारम् एवतम् संयजमानः यजमानवत् उद्धरते हरतेऽन्यासु अन्यासु प्रजासु प्रजास्वधि प्रजास्विधिप्राजासु शुक्रपात्रेण गृह्णाति शुक्रपात्रेणेति शुक्रापात्रेण गृह्णाति यजमानदेवत्यः यजमानदेवत्यो वै माहेन्द्रस्तेजः माहेन्द्र इति माहा इन्द्रः तेजः शुक्रः शुक्रो शुक्रपात्रेण गृह्णाति शुक्रपात्रेणेति शुक्रापात्रेण यजमान एव तेजः तेजो दधाति दधातीति दधाति अदितिः पुत्रकामा पुत्रकामा साध्येभ्यः पुत्रकामेति पुत्राकामा साध्येभ्यो देवेभ्यः देवेभ्यो ब्रह्मोदनम् ब्रह्मोदनमपचत् ब्रह्मोदनमिति ब्रह्मा वोदनम् अपचब्दस्यै तस्या उच्छेषणम् उच्छेषणमदतुः उच्छेषणमित्युदविशेषणम् अददस्तत् तद्ब्र प्राश्नात् प्राश्नात् स रेतः रेतो सत्त तस्यै तस्यै जद्वारः तत्त्वार आदित्याः आदित्या जायन्त जायन्त सा द्वितीयम् द्वितीयमपजत् अभजत् सा सा मन्यत अमन्यतोच्छेषणाद् उच्छेषणान्मे उच्छेषणादित्यशेषणाद् मयिमे इमेत रज्ञतयत् यदग्रे रग्रे प्राशिष्यामि प्राशिष्यामीतः प्राशिष्यामीति प्राशिष्यामि इतो मे मे वसीयागुंसः वसीयागुंसो जनिष्यन्ते जनिष्यन्त इति सा साग्रे अग्रे प्र प्राश्नात् आश्नात् सा स रेतः रेतो धत्त अधद्धतस्यै तस्यै व्यर्थम् व्यर्थमाण्डम् व्यर्थमिति वीर्धम् आण्डमजायत अजायतसा एव तृतीयम् तृतीयमवजद् अपजद्भोगाय भोगाय मे मजिदम् इदग् श्रान्तम् श्रान्तमस्तु अस्त्ति इति ते ते ब्रुवन् अब्रुवन्वरम् वरम् वृणामहै वृणामहैयः अथो जायातै जायाता जा जा अस्माकम् अस्माकंसः स एकः एकोऽस असद्यः योस्य अस्य प्रजायाम् प्रजायाम् रुध्यातय प्रजायामिति प्राजायाम् विध्याता अस्माकम् अस्माकम् भोगाय भोगाय भवाद् भवादिति ऋतः ततो विवस्वान् विवस्वानादित्यः आदित्योजायतस्य पस्य वै वा इयम् इयम् प्रजा प्रजायत्ष्यास्तासु ता तास्वेकः एक एवर्धः रद्धोजः यो यजते यजते सदेवानाम् देवानाम् भोगाय भोगाय भवति भवति देवाः देवा वै मयि यज्ञाद् यज्ञाद्ुद्रम् रुद्रमन्तः अन्तरायन् आयन् सः सादित्यान् आदित्यान् अन्वाक्रमद अन्वाक्रमतते अन्वाक्रमतेऽनो आक्रमद ते द्विदेवत्यान् देवत्यान्प्र देवत्यानिति द्वि देवत्यान् प्रापद्यन्त अपद्यन्ततान् न प्रति प्रतिप्र प्रायच्छन् अयच्छन्तस्मात् तस्मादपि अपिवध्यम् पध्यम् प्रपन्नम् प्रपन्नम् न प्रपन्नमिति प्रापन्नम् न प्रति प्रदिप्रा प्रयच्छन्ति देवत्येभ्य इति द्विदेवत्येभ्यः आदित्योनिः निर्गृह्यते गृह्यतेर् यदुच्छेषणात् उच्छेषणादजायन्त उच्छेषणादित्यशेषणात् अजायम् ततस्मात् तस्मादुच्छेषणात् उच्छेषणाद् गृह्यते उच्छेषणादिशेषणात् गृह्यते तिसृभिः तिसृभिरृग्भिः तिसृभिरिति तिसृभिः ऋग्भिर्गृह्णाति ऋग्भिर्दृग्भिः गृह्णाति माता मातापिता पिता पुत्रः पुत्रस्तत् तदेव एव तन्मिथुनम् मिथुनमुल्पम् उल्बम् गर्भः गर्भो जरायु यदा वितत् तदेव एवतत् तन्मिथुनम् मिथुनम् पशवः कशवो वै वा एते एते यदादित्यः आदित्यमूर्ग् ऊर्दधि तधिमामधृतः मध्यदश्रीणादि श्रीणात्यूर्धम् ऊर्जमेव एवमशूनाम् पशूनामद्धिरः मध्यतो दधादि अधादिषालङ्क्येन तदादङ्केन मेध्यत्वाय तदादङ्केनेति श्र आतङ्केन मेध्यत्वा यतस्मात् आमा पक्वम् पक्वम् दुहे दुहे पशवः पशवो वै वा एते एते यदादित्यः आदित्यः परिश्रित्य परिश्रित्य गृह्णाति परिश्रुज्येति परिश्रित्य गृह्णाति एवास्मैः अस्मै पशून् पशोन् पशोन गृह्णाति गृह्णादि पशवः पशवो वै वा एते एते यद् रुद्रो यद् यदग्निः अग्निः परिश्रित्य परिश्रित्य गृह्णादि परिश्रुज्येति परिश्रित्य रुद्रादेव रुद्रा एव पशून् पशोनन्दः पशोन अन्तर्दधाति अंत् दधाद्येषः एष वै आदित्यो यत् यदुपागुंशुसवनः उपागुंशुसवनः सः उपागुंशुसवन इत्युपागुंशुसवनः स एतम् एकमेव एव सोमपीथम् सोमपीथम् परि सोमपीथमिति सोमापीथम् परिशये शया आ तृतीयसवनात् तृतीयसवनाद्विवस्वः तृतीयसवनादिति तृतीयासवनाद् विवस्व आदित्य आदित्यैषः एषतेः हे सोमपीठः सोमपीठ इति सोमपीठ इति आह विवस्वन्दम् विवस्वन्दमेव एवादिव्यम् आदिज्ञकम् सोमबीधेन सोमपीथेन सम् सोमपीथेन यदि सोमपीथेन समर्धयति अर्धयति या या दिव्या दिव्या वृष्टिः वृष्टिस्तया तया हत्वा त्वा श्रेणामि श्रेणामीति वृष्टिमेव हे वाप अवरुन्धे वृन्धे यदि यदि ताजग ताजक्प्रस्कन्धे एद् प्रस्कन्धेद्वरुषुकः प्रस्कन्धेदिति प्रास्कन्दे एद्वर्षुकः पर्जन्यः पर्जन्यः स्यात् स्याद्यदि यदि शिरम् शिरमवर्षुकः अवरुषुको अवर न साधयति साधयति प्रसन्नात् प्रसन्नाद्धि हि प्रजाः प्रजाः प्रजायन्ते प्रजायति प्राजाः प्रजायन्तेन प्रजायन्त यदि प्राजायन्ते नानौ अन्वषट् वषट्करोति करोति यत् यदनुवषट् कुर्यात् अनुवषत्कुर्याद् रुद्रम् अनुवषत्कुर्यादित्यनुवषट्कुर्यात् रुद्रम् प्रजाः प्रजा अन्वपसृजेत् प्रजा इति प्राजाः अन्ववसृजेन्न अन्वपसृजेदित्यनुवसृजेत् न हुत्वा कृत्वा नो अन्वीक्षेत ईक्षेत यत् यदन्वीक्षेत चक्षुरस्य अस्य प्रमायुगम् प्रमायुग्र्यात् प्रमायुगमिति प्रामायुगम् स्यात्तस्माद् तस्मान्न नान्वीक्ष्यः अन्वीक्षेद्य नो ईक्ष्यः अन्तर्यामपात्रेण सा वित्रम् अन्तर्यामपात्रेणन्तर्यामपात्रेण आग्रेण गृह्णाति गृह्णाति प्रजापतिः प्रजापतिर्वै प्रजापतिरिति प्रजापतिः वा एषः एष यद् यदाग्रयणः आग्रयणः प्रजानाम् प्रजानाम् प्रजननाय प्रजानामिति प्राजानाम् प्रजननायन प्रजननायदि प्राजननाय असाधयति साधयत्यसन्नात् असन्नाद्धि हि प्रजाः प्रजा प्रजायुन्ते प्रजा इति प्राजाः प्रजायुन्ते न प्रजायुन्दैरि प्राजायुन्ते ननु अन्वषट् वषट्करोति करोति प्रजाः इति प्राजाः अन्ववसृजे देशः अन्ववसृजेदित्यनोऽवसृजेत् एष वै वै गायत्रः गायत्रो देवानाम् देवानान्युर् यत्सभिधा सभितैषः एष लोके लोके दृश्यते दृश्यते यद् यदा आग्रेणः आग्रेणो यद् इदन्तर्यामपात्रेण अन्तर्यामपात्रेण सा वित्रम् अन्तर्यामपात्रेणेत्यन्तर्यामपात्रेण सावित्रमाग्रहणाद् आग्रेणाद्गृह्णाति गृह्णादि स्वाद् स्वादेव एवैनम् एनम् योनेः योनेर्निः निर्गृह्णादि विश्वे देवाः देवाश्रीणम् देवा श्रीजगुम् सवनम् सवनम् नोद उदयच्छन् ते स वितारम् स वितारम् प्रातस्य वनभागम् प्रादस्यवनभागुम् सन्तम् प्रातस्य वनभागमिति प्रादस्यवनाभागम् सन्तम् तृतीयसवनम् तृतीयसवनमभि तृतीयसवनमिति तृतीयासवनम् अभिपरि पर्यणयन् अनयन् ततः तथो वै वै ते ते तृतीयम् तृतीयगुम् सवनम् सवनमुद उदयच्छन् अयच्छनयद् यत् तृतीयसवने तृतीयसवने सा विद्रः तृतीयसवन इति तृतीयस्रवने सावित्रो दृक्ष्यते दृक्ष्यते तृतीयस्य तृतीयस्य सवनस्य सवनस्योद्गत्यै उद्गत्यै समितृपात्रेण उद्गत्या इत्युक्तैः समितृपात्रेण वैश्वदेवम् समितृपात्रेणेति सवितृपात्रेण वैश्वदेवम् कलशात् वैश्वदेवमिति वैश्वदेवम् कलशाद् गृह्णाति गृह्णाति वैश्वदेव्यः वैश्वदेव्यो वै वैश्वदेव्य इति वैश्वदेव्यः वै प्रजाः प्रजा वैश्वदेवः प्रजा इति प्राजाः वैश्वदेवः कलशः वैश्वदेव इति वैश्वादेवः कलशः सविता सविता प्रसवानाम् प्रसवानामीशे प्रसवानामिति प्रासवानाम् ईशेत् यत्सवितृपात्रेण सवितृपात्रेण वैश्वदेवम् सवितृपात्रेण इति वैश्वदेवम् कलशात् गृह्णाति गृह्णाति सवितृप्रसूदः सवितृप्रसूद एव सवितृप्रसूत इति सवितृप्रसूतः एवास्मै अस्मै प्रजाः प्रजनयति जनयति सोमेः सोमे सोमम् सोममभि अभिगृह्णाति गृह्णातिरेतः प्रेत एव तद् तद्दधाति दधाति सुषर्माः सुषर्मासि सुषर्मेति सुशर्माः असि सुप्रतिष्ठानः सुप्रतिष्ठानयति सुप्रतिष्ठानयति सुप्रतिष्ठानः इत्याह आह सोमेहि हि सोमम् सोममभिगृह्णाति अभिगृह्णाति प्रतिष्ठित्यै अभिगृह्णाति इत्यभिगृह्णाति प्रतिष्ठित्या एतस्मिन् प्रतिष्ठित्य एतस्मिन्वै वा अपि अविग्रहे ग्रहे मनुष्येभ्यः मनुष्येभ्यो देवेभ्यः देवे पितृभ्यः पितृभ्यः क्रियते पितृभ्येति पितृभ्यः क्रियते सुषर्माः सुशर्मासि सुशर्मेति सुषर्माः असि सुप्रतिष्ठानः सुप्रतिष्ठानयति सुप्रतिष्ठान इत्याह आह मनुष्येभ्यः मनुष्येभ्य एवैतेन एतेन करोति करोति बृहद् बृहदिति इत्याह आह देवेभ्यः देवेभ्य देवे एवैतेन एतेन करोति करोति नमः नमः इत्याह आह पितृभ्यः पितृभ्य एव पितृभ्यैति पितृभ्यः एवैतेन एतेन करोति करोत्येतावतीः एतावती वै वै देवताः देवतास्ताभ्यः ताभ्य एव एवैनम् एनम् सर्वाभ्यः सर्वाभ्यो गृह्णाति गृह्णात्येषः एष ते तेजोनिः योनिर्विश्वेभ्यः विश्वेभ्यस्त्वा त्वा देवेभ्यः देवेभ्यैः इत्याह आह वैश्वदेवः वैश्वदेवो हि वैश्वदेव इति वैश्वदेवः ह्येषः एष इत्येषः प्राणो वै प्राण इति प्राणः वा एषः एष उपाकुंशुपात्रेण प्रथमः उपाकुंशुपात्रेणेति उपाकुंशुपात्रेण प्रथमश्च चोत्तमः उत्तमश्च उत्तम इत्युत्तमः ग्रहौ ग्रहौ गृह्येतेः प्राणम् गृह्येथे इति गृह्येतेः प्राणमेव प्राणमिति प्राणम् एवानु अनुप्रयन्ति प्रयन्ति प्राणम् प्रयन्ति इति प्रायन्ति प्राणमनु प्राणम् अनूत् उद्ययन्ति यन्ति प्रजापतिः प्रजापतिर्वै प्रजापतिरिति प्रजापतिः वा एषः एष यद् यदाग्रयणः आग्रयणः प्राणः पत्नीः उपागुंशुरित्युपागुंशुः पत्नीः प्रजाः प्रजाःप्रा प्रजायदि प्राजाः प्रजनयन्ति जनयन्ति यत् उपाकुंशुपात्रेण पात्नीव्रतम् उपाकुंशुपात्रेणत्युपाकुंशु पात्रेण पात्नीव्रतमाग्रहणात् पात्नीवतमिति पात्नीवतम् आग्रहणात् गृह्णाति गृह्णादि प्रजानाम् प्रजानाम् प्रजननाय प्रजानामिति प्राजानाम् प्रजननाय तस्मात् प्रजननायति प्राजननाय प्रजाः प्राणमिति प्राणम् प्रजा नो जायन्ते देवाः देवा वै वा इद इतः इद इतपत्नीः इद इत इतीतः इतः पत्नीः सुवर्गम् स्वर्गम् ते सुवर्गम् सुवर्गम् लोकम् स्वर्गमिति सुवहागम् लोकम् प्राजानन् अजानन्ते तयेतम् एतम् वा आग्नीवदम् पाग्नीपदमपश्यन् पात्नीलतमिति पात्नीलतम् तपशृन्तम् तमगृह्णत अगृह्णततः ततो वै वैते ते सुवर्गम् स्वर्गम् लोकम् सुवर्गमिति सुवहागम् लोकम् प्राजानन् अजाननेत् यद्पात्नीलतः पात्नीवतो दृश्यते पात्नीवत इति पात्नीलतः दृश्यते सुवर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य यदि लोकस्य प्रज्ञात्यै प्रज्ञात्यै सः प्रज्ञात्यादिभिप्राज्ञादिः स सोमः सोमो न नातिष्ठद अतिष्ठदस्त्रेभ्यः स्त्रेभ्यो गृह्यमाणः गृह्यमाणस्तम् तम् घृतम् घृतम् वज्रम् वज्रम् कृत्वा कृत्वा गृह्णन् अर्घन्तम् तम् निरिन्द्रियम् निरिन्द्रियम् भूतम् निरिन्द्रियमितिनिः इन्द्रियम् भूतमगृह्णन् अगृह्णन्तस्मात् तस्मात् स्त्रियः स्त्रियो निरिन्द्रियाः निरिन्द्रिया अदायादीः निरिन्द्रिया इन्द्रियाः तदायाधीरपि तदायाभिरित्यदायादिः अपि पापात् पापात् ऋपुंसः रुपुंसमुपस्थितनम् उपस्थितनम् वदन्ति उपस्थितनमित्युपस्थितम् वदन्ति यत् घृतेन घृतेन पात्नीवतम् पाग्नीवदगश्रेणादि पाग्नीपदमिति पात्नीपतम् श्रेणादिवज्रेण वज्रेणैव एवैनम् एनम् वशे अशे कृत्वा कृत्वा गृह्णाति गृह्णाद्युपयामगृहीतः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामा गृहीतः असीति इत्याह आहेयम् इयम् वै वा उपयामः उपयामस्तस्मात् उपयाम इत्युपयामः तस्मादिमाम् इमाम् मृजाः इमाम प्रजा अनु प्रजा इति प्राजाः अनुप्रजायन्ते प्रजा जायन्ते बृहस्पतिसुतस्य बृहस्पतिसुतस्यते बृहस्पतिसुस्येति बृहस्पतिसुस्य थ इति इत्याह आह ब्रह्म ब्रह्म वै वै देवानाम् देवानाम् बृहस्पतिः बृहस्पतिर्ब्रह्मणा ब्रह्मणैव एवास्मै अस्मै प्रजाः प्रजाः प्रजा इति प्राजाः प्रजनयति जनयतीन्दोः इन्दो इति इन्दो इति इन्दो इत्याह आहरेतः रेधो वा इन्दुः इन्दुरेतः रेत एव एव तत् तद्दधाति इन्द्रिया वयति इन्द्रिया वयति इन्द्रिया वह इत्याह आह प्रजाः प्रजा वै वा इन्द्रियम् इन्द्रियम् प्रजाः प्रजा एव प्रजा यदि प्रागाः एवास्मै अस्मै प्रजनयति जनयतिहाग्निः अग्निर्वै वैरे रेतोधाः पत्नीवः रेतोधा इति रेतहाधाः पत्नीभयति पत्नीभयति पत्नीवः इत्याह आह मिथुनत्वाय मिथुनद्वाय सजोः मिथुनद्वायेति मिथुनात्वाय सजोर्देवेन सजोरिति साजोः देवेन त्वष्ट्रा त्वष्ट्रा सोमम् सोमम् पिब पिबेति इत्याह आह त्वष्टाः त्वष्टा वै वै पुषूनाम् पशूणाम् मिथुनानाम् रूपकृद्रूपम् रूपकृतिरूपकृमेव एव पशुषु पशुषु दधाति दधाति देवाः देवा वै देवा वै त्वष्टानम् त्वष्टानमजिघागुंसन् अजिघागुंसन् सह सपत्नीः पद्नीः प्रा, प्रापद्यत अपद्यतम् तन्न न प्रति प्रतिप्रायच्छन् प्रा, अयच्छन्तस्मात् तस्मादपि अपि वध्यम् वध्यम् प्रपन्नम् प्रपन्नम् न प्रपन्नमिति प्रापन्नम् न प्रति प्रतिप्रयच्छन्ति यच्छन्ति तस्मात् तस्मात्पात्नीवदे पात्नीवदे त्वष्ट्रे पात्नीवत इति पात्नीवदे त्वष्ट्रेऽपि अपिगृह्यते गृह्यते न साधयति साधयत्यसम्नात् असम्नाद्भि हि प्रजाः प्रजाः प्रजागन्तप्रायन्ते ननु अनुवषट् अषट्करोति करोति यत् यदनुवषट्कुर्यात् अनुवषट्कुर्याद् रुद्रम् अनुवषट्कुर्यादित्यनोवषट्कुर्याद् रुद्रम् प्रजाः प्रजा अन्ववसृजेत् प्रजा इति प्राजाः अन्ववसृजेद्यत् अन्ववसृजेदित्यनो नानुवषट् कुर्यात् अनुवषत्कुर्यादशान्तम् अनुवषत्कुर्यादित्यनुवषत्कुर्यात् अशान्तमग्नीत् अग्नीत् सोमम् अग्नीदित्यग्नीत् सोमम् भक्षयेत् भक्षयेत् उपागुंशु उपागिष्वनु उपाष्वत्युपागुंशु अनुवषट् वषट्करोति करोति न रुद्रम् रुद्रम् प्रजाः प्रजान्वसृजति प्रजा इति प्राजाः अन्ववसृजति शान्तम् अन्ववसृजति इत्यनु अवसृजति शान्तमग्नीत् अग्नीत्सो अग्नेदिद्यग्नीयत् सोमम् भक्षयति भक्षयत्यग्नीयीत् अग्नीम्नेष्टुः अग्नेदित्यग्नीष्टुरुपस्थम् उपस्थमा उपस्थमित्युपास्थम् आसीद सीदनेष्टः नेष्टः पत्नीमुदानय उदानयेति मुदानयेत् आनय इत्याह आहाग्नीर् अग्नीदेव अग्निरित्यग्नी नेष्टलि नेष्टलिरेतः रेतो दधाति अधाति नेष्ठा नेष्ठा पत्न्याम् पत्न्यामुद्गात्रा उद्गात्रा सम् उद्गात्रेत्युद्गात्रा सङ्ख्यापयति ख्यापयति प्रजापतिः प्रजापतिर्वै प्रजापतिरिति प्रजापतिः वा एषः एषेत् यदुद्घाता उद्घाता प्रजानाम् उद्गातेत्युद्घाता प्रजानाम् प्रजननाय प्रजानामिति प्राजानाम् प्रजननायापः प्रजननायेति प्राजननाय अवौप उभप्रवर्तयति वर्धयति रेतः रेत एव तत्सिञ्चति सिञ्चत्योरुणा ऊरुणोप उपप्रवर्तयति वर्तयत्योरुणा ऊरुणा हि तिरेतः वेदः सिच्यते शिच्यते अग्नङ्कृत्योरुम् अग्नङ्कृत्य इति ऊरुमुप उपप्रवर्तयति वर्तयति यदा यदा हि हि नग्नः नग्न ऊरुः ऊरुर्भवति भवत्यथ अथ भवतः भवतोऽथ अथ रेतः एतस्यच्यते अथ प्रजाः प्रजाः प्रजा इति प्राजाः प्रजायन्द्रे जायन्त इन्द्रो वृत्रमहन् अहन्तस्य तस्य शीर्षकपालम् शीर्षकपालमुत् शीर्षकपालमिति शीर्षकपालम् उदौज्यते औजत्सः स द्रोणकलशः द्रोणकलशोभवत् द्रोणकलश इति द्रोणकलशः अभवत्तस्मात् तस्मात् सोमः सोमस्रम् समस्रवत् अस्रवत्सः इति हारियोजनः अभवत्तम् माहौषा हौषामिति एते सः अमन्यत अमन्यत यत् यद्धोष्यामि होष्याम्यामम् आमगुम्होष्यामि होष्यामि यत् यन्न न होष्यामि होष्यामि यज्ञवेषसम् यज्ञवेषसम् करिष्यामि यज्ञवेषसमिति यज्ञावेषसम् करिष्यामीति इदितम् तमध्रियत अध्रियत होतुम् होतु पुंसः सोऽग्निः अग्निरब्रवीत् अब्रवीन्न न महि मय्यामम् आमगुम्हो होष्यसि होष्यसीति इदितम् तम् धानाभिः धानाभिरश्रीणात् अश्रीणात्तम् तगम् श्रुतम् श्रुतम् भूतम् भूतमजुहोत् अजुहोद्यत् यद्धानाभिः धानाभिर्हारियोजनम् हारियोजनद्य श्रीणाति हारियोजनमिति हारियोजनम् श्रीणाति श्रुतत्वाय श्रुतत्वाय श्रुतम् श्रुतत्वायेति श्रुतात्वाय श्रुतमेव एवैनम् एनम् भूतम् भूतम् जुहोति जुहोति बह्वीभिः बह्वीभिः श्रीणाति श्रीणात्येतावतीः एतावतीरेव एवास्य तस्यामस्मिन् अमुस्मिन् लोके लोके कामदुघाः कामदुघा भवन्ति कामदुघा इति कामादुघाः भवन्त्यथो अथो खलु अथो इत्यथो खल्वाहुः आहुरेताः एतावै वा इन्द्रस्य इन्द्रस्य पृष्टयः पृश्नयः कामदुघाः कामदुघाय कामदुघा इति कामादुघाः यद्धारियोजनीः हारियोजनीरिति हारियोजनीरिति हारियोजनीः इति तस्मात् तस्माद्बह्वीभिः बह्वीभिः श्रीणीयाद् श्रीणीयादृक्सामे रक्षसामे वै रक्षसामेरित्युक्सामे वा इन्द्रस्य इन्द्रस्य हरिः हरि सोमपानौ हरि इति हरिः सोमपानौ तयोः सोमपानामिति सोमापानौ तयोः परिधयः परिधय आधानम् परिधय इति परिधयः आधानयत् आधानमित्यानाधानम् यदप्रहृत्य अप्रहृत्यपरिधीन् अप्रहृत्येत्यप्राहृत्य परिधीन्दुहुयात् परिधीनिति परीधीन् विभुयादन्तराधानाभ्याम् अन्तराधानाभ्याम् घासम् अन्तराधानाभ्यामित्यन्तः आधानाभ्याम् घासम् प्रयच्छेत् यच्छेत् प्रहृत्य प्रहृत्यपरिधीन् प्रहृत्येति प्राहृत्य परिधीञ्जुहोदि परिधीनिति जुहोति निराधानाभ्याम् निराधानाभ्यामेव निराधानाभ्यामितिनिः आधानाभ्याम् एव घासम् घासम् प्रयच्छति यच्छक्यम्नेता उेता जुहोति उम्नेतेत्युतो नेता जुहोति यातयामा यातयामेव यातयामेति यातायामा इवा हि ह्ये तर्हि एतर्ह्यध्वर्युः सुगाकृतो यत् सुगाकृत इति सुगाकृतः यदध्वर्युः अध्वर्युर्जुहुयाद् जुहुयाद्यथा पुनः विमुक्तमिति विमुक्तम् पुनर्विनक्ति विनक्ति तादृक् तादृगेव एवदत् तच्छीर्षन् शीर्षन्नधिनिधाय अधिनिधाय जुहोति अधिनिधाय इत्यधिनिधाय स समभवत् समभवद्विक्रम्य समभवदिति समभवदन् विक्रम्य जुहोति विक्रम्येति विक्रम्य विक्रम्य विक्रम्य हि विक्रम्येति विक्रम्य अहम् समृद्धि समृद्धि पशवः समृद्ध्यादिति समृद्धि पशवो वै वैहार्ययोजनीः हार्ययोजनीर्यत् हारियोजनीरिति हार्ययोजनीः यत्सम्भिन्द्यात् संभिन्द्यादल्पाः सम्भिन्द्यादिति पशवः पशवो भुञ्जन्तौ वा उपतिष्ठेरन् तिष्ठेरनिर् यन् न सम्भिन्द्याद् सम्भिन्द्याद् बहवः सम्भिन्द्यादिति सम्भिन्द्यात् बहव एनम् एनम् पशवः पशवो भुञ्जन्तः अभुञ्जन्तौ वा उपतिष्ठेरन् तिष्ठेरन्मनसा मनसा सम् सम्बाधते बाधत उभयम् उभयम् करोति करोति बहवः अहव एवैनम् एनम् पशवः पशवो भुञ्जन्तः भुञ्जन्त उप उपतिष्ठन्ते तिष्ठन्त उन्नेतरि उन्नेतर्युपहवम् उन्नेतरी इत्येतरि उपहवमिच्छन्ते उपहवमित्युपहवम् इच्छन्ते यः एव तत्र तत्र सोमपीठः सोमपीथस्तम् सोमपीथ इति सोमापीठः तमेव एवाव अपरुन्धते रुन्धत उत्तरवेद्याम् उत्तरवेद्यान्य उत्तरवेद्यामित्युत्तरवेद्याम् निपपति अपति पशवः पशवो वै उत्तरवेदिः पशवः उत्तरवेदिरित्युत्तरावेदिः पशवो हारियोजनीः हारियोजनीः पशुषो हारियोजनीरिति हारियोजनीः पशुष्वेव एव पशून् पशून्प्रति प्रतिष्ठापयन्ति स्थापयन्तीति स्थापयन्ति प्रहानवै वा अनु प्रजाः पशवः रजा इति प्राजाः रसवः प्रजायन्ते जायन्तौ उपागस्वन्दर्यामौ उपागस्वन्दर्यामावजावयः उपाकस्वन्दर्यामावित्युपागंशो अन्तर्यामौ अजावयः शुक्रमन्थिनौ अजावय इत्यजा अवयः शुक्रामन्थिनौ पुरुषाः शुक्रामन्थिनावितिशुक्रावन्थिनौ पुरुषादतु ग्रहान् न तु ग्रहाणेकसफाः ततु ग्रहानित्युतो ग्रहान् एकसफानित्यग्रहम् एकशफा इत्येका शफाः आदित्यग्रहम् गावः आदित्यग्रहमित्यादित्याग्रहम् गावः आदित्यग्रहः आदित्यग्रहो आदित्यग्रहः इत्यादित्याग्रहः भूयिष्ठाभिर्लग्भिः रग्भिर्गृह्यते रग्भिरिभिः गृह्यते तस्मात् तस्माद्गावः गावः पशूनाम् पशूनाम् भूयिष्ठाः भूयिष्ठाय यत्र हि त्रिरुपागुंशुम् उपाघुंशमित्युपागुंशम् हस्तेन विगृह्णाति विगृह्णाति तस्मात् विगृह्णाति इति विगृह्णाति तस्माद्भौ भौ त्रीन् त्रीणजा अजा जनयति जनयत्यथा अथावयः अवयो भूयसीः भूयसी पिता पिता वै वा एषः एषेत् यदाग्रेणः पुत्रः पुत्रः कलशः कलशो यत् यदाग्रेणः आग्रेण उपदस्येत् उपदस्येत्कलशात् उपदस्येदित्युपादस्येत् कलशाद् गृह्णीयात् गृह्णीयाद्यथा यथा पिता पिता पुत्रम् पुत्रम् क्षितः शितः उपधावति उपधावति तादृग् उपधावतीत्युपधावति तादृगेव एव तत् तद्यद् यत्कलशः कलश उपदस्येत् उपदस्येदाग्रेणाद् उपदस्येदित्युपादस्येत् आग्रेणाद्गृह्णीयात् गृह्णीयाद्यथा यथा पुत्रः पुत्रः पितरम् पितरम् क्षितः क्षितौ पधावति उपधावति तादृग् उपधावतीत्युपाधावति तादृगेव तदात्मा आत्मावि वा एष यज्ञस्य यज्ञस्येत् यदाग्रेणः आग्रेणो यत् यद्ग्रहः ग्रहो वा कलशः कलशो वा उपदस्येत् उपदस्येदाग्रयणाद् उपदस्येदित्युपदस्येत् आग्रेणाद्गृह्णीयात् गृह्णीयादात्मनः आत्मन एव एवाधि एवा अधियज्ञम् यज्ञम् हि निष्करोति करोत्यविज्ञातः अविज्ञातोऽपि अविज्ञात इत्यविज्ञातः वा एषः एष गृह्यते दृश्यते यत् यदाग्रयणः आग्रयणस्थाल्या स्थाल्या, स्थाल्या गृह्णाति गृह्णाति वायव्येन वायव्येन जुहोति जुहोति तस्मात् तस्माद्गर्भेण गर्भेणाविज्ञातेन अविज्ञातेन ब्रह्म ब्रह्म अवभृतम् ब्रह्मेति ब्रह्माः अवभृतमव अवभृतमित्यवाभृतम् अवयन्ति यन्ति पराः पराः स्थालीः स्थालीरस्यन्ति अस्यत् उद्वायव्यानि वायव्यानि हरन्ति हरन्ति तस्मात् तस्मात् श्रियम् श्रियम् जाताम् जाताम् पराः पराः स्यन्ति अस्यत् उत्पुमागुंसम् पुमापुंसकम् हरन्ति हरन्ति यत् यत्पुरोरुचम् पुरोरुचमाः पुरोरुचमिति पुरहारम् आहयथा यथावस्यसे अस्य स आहरति आहरति तादृग आहरतीत्याहरति तादृगेव एव तत् अद्य यद्ग्रहम् ग्रहम् यथा यथावस्यसे अस्य आहृत्य आहृत्यप्र आहृत्येत्याहृत्य प्राह आह तादृक् तादृगेव यत्साधयति साधयति यथा यथा वस्यसे वस्य स उपनिधाय उपनिधायापक्रामति उपनिधाय इत्युपानिधाय अपक्रामति तादृग् अपक्रामतीत्युपाक्रामति तादृगेव एव तत् तद्यत् यद्वै वै यज्ञस्य यज्ञस्य साम्ना साम्ना यजुषा यजुषा क्रियते क्रियते शिथिलम् शिथिलम् तत् तर्जत् यदृशा दृशा तत् तदृढम् दृढम् पुरस्तादुपयामः यजुषा पुरस्तादुपयामः इति पुरस्तात् उपयामः यजुषा कृष्यन्ते गृह्यन्त उपरिष्टादुपयामाः उपरिष्टादुपयामा रच उपरिष्टादुपयामा इत्युपरिष्टात् उपयामाः रचा यज्ञस्य यज्ञस्य धृत्यैः धृत्या इति प्राण्यानि अन्यानि पात्राणि पात्राणि युज्यन्ते युज्यन्तेन नान्यानि अन्यानि यानि यानि प्राचीनानि प्राचीनानि प्रयुज्यन्तेः प्रयुज्यन्ते एवम् प्रयुज्यन्तैलिप्रायुज्यन्तेः अमुमेव एव तैः तैर्लोकम् लोकमभि अभिजयति यदि पराङ् पराङ्गिव इव हि ह्यसौ असौ लोकः लोको यानि यानि पुनः पुनः प्रयुज्यन्तेः प्रयुज्यन्त इमम् प्रयुज्यन्दैलिप्रायुज्यन्तेः एव तैः तैर्लोकम् लोकमभि अभिजयति जयदि पुनः पुनः पुनः पुनरिव पुनः पुनरिति पुनः पुनः इव हि शयम् अयम् लोकः लोकः प्राण्यानि अन्यानि पात्राणि पात्राणि युज्यन्ते युज्यन्तेन ना, नान्यानि अन्यानि यानि यानि प्राचीनानि प्राचीनानि प्रयुज्यन्ते प्रयुज्यन्ते तानि प्रयुज्यन्त इति अन्वोषधयः ओषधयः परा भवन्ति भवन्ति यानि यानि पुनः पुनः प्रयुज्यन्ते प्रयुज्यन्तैतानि प्रयुज्यन्तयति प्रायुज्यन्ते तान्यनु अन्वोषधयः ओषधयः पुनः पुनरा आ भवन्ति भवन्ति प्रान्यानि अन्यानि पात्राणि पात्राणि युज्यन्ते युज्यन्तेन नान्यानि अन्यानि यानि यानि प्राचीनानि प्राचीनानि प्रयुज्यन्ते तान्यनु अन्नारण्याः आरण्याः स्पृशवः वृषवोरण्यम् अरण्यमव अपयन्ति यानि यानि पुनः पुनः प्रयुज्यन्ते प्रयुज्यन्दैतानि प्रयुज्यन्दयति प्रायुज्यन्ते तान्यनु अनुग्राम्याः ग्राम्याः पृशवः वसवो उपावयन्ति उपा यः उपावयन्तीत्युपावयन्ति यो वै वै ग्रहाणाम् ग्रहाणान् निदानम् निदानम् वेद निदानमिति निदानम् वेदनिदानवान् निदानवान् भवति निदानवानिति निदानवान् भवत्याज्यम् आज्यमिति इत्युक्तम् उक्थम् तत् तद्वै वै ग्रहाणाम् ग्रहाणान्निदानम् निदानम् यत् निदानमिति निदानम् यदुपागुंशु उपागुंशु शकुंसरि उपागष्वित्युपागुंशु शकुंसरित तदुपागसुन्दर्यामयोः उभागसुन्दर्यामयोर्यल् उभागस्वन्दर्यामयोरित्युपागुंशु अन्तर्यामयोः यदुच्चैः उच्चैस्तद् तदितरेषाम् इतरेषाम् ग्रहाणाम् ग्रहाणामेतत् एतद्वै वै ग्रहाणाम् ग्रहाणाम् निदानम् निदानम् यः निदानमिति निदानम् य एवम् वेद वेद निदानवान् भवति निदानवानिति निदानवान् भवरिदः यो वै वै ग्रहाणाम् ना, ग्रहाणाम् वेद वेदप्रजयाः प्रजया पशुभिः प्रजयेति प्राजयाः पशुभिर्मिथुनैः पशुभिरिति पशुभिः जायते स्थालिभिः स्थालिभिरन्ये रन्ये ग्रहाः ग्रहा गृह्यन्ते गृह्यन्ते वायव्यैः वायव्यैरन्ये अन्य एतत् एतद्वै वै ग्रहाणाम् ग्रहाणाम् मिथुनम् मिथुनयः एवम् एवम् वेद एतप्रजयाः प्रजया पशुभिः प्रजयेदि प्राजयाः पशुभिर्मिथुनैः पशुभिरिति पशुभिः मिथुनैर्जायते जायत इन्द्रः इन्द्रस्त्वष्टुः त्वष्टुः स्वम् सोममभीषः अभीषः अपिपत् अभीषहेद्यभीषः अपिबत्सः स विष्वङ् विश्वङवि याक्षत् आक्षत्सः स आत्मन् आत्मन्नारमणम् आरमणन्न आरमणमित्यारमणम् आविन्दरे अविन्दत्सः स एतान् एताननुशवनम् निः निरववत् अववर्तैः वैर्वै वै सह आत्मन् आत्मन्नारमणम् आरमणमकुरुत आरमणमित्यारवणम् अकुरुत तस्मात् तस्मादनुसवनम् अनुसवनम् पुरोडाशाः अनुशवनमित्यनौ सवनम् रोडाशानिः निरुप्यन्ते उप्यन्ते तस्मात् तस्मादनुसवनम् अनुसवनम् पुरोडाशानाम् अनुसवनमित्यनोसवनम् रोडाशानाम् प्रश्नीयात् अश्नीयादात्मन् आत्मन्नेव एवारमणम् आरमणम् कुरुते आरमणविद्या आरमणम् कुरुतेन नैनम् येन किम् सोमः सोमोति अधिभवते भवते ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिनैति ब्रह्मवादिनः उत्पदन्ति न अर्चा रचा न यजुषा यजुषा पङ्क्तिः पङ्क्तिरा आप्यदे आप्यतेथ यज्ञस्य यज्ञस्य पाङ्कत्वम् पाङ्कत्वमिति पाङ्कत्वमिति पाङ्कत्वम् इति धानाः धानाः करम्भः करम्भः परिभापः परिपापः प्रोडाशः परिपाप इति परिपापः प्रोडाशः पयस्याः पयस्या तेन तेन पण्डिः पण्डिताः पिरे आद्यते तत् तद्यज्ञस्य यज्ञस्य पाण्डत्वम् पाङ्त्वमिति पाङ्क्तत्वम् ओष्ठकाण्डे पञ्चमः प्रश्नः समाप्तः